बृहदारण्य उपनिषत् अध्यायं फोर् ब्राह्मणं वन् ओं जनको ह वैदेह आसाञ्चक्रेर्थः याज्ञवल्क्य आवव्राजतगुंहोवाच याज्ञवल्क्य किमर्थमचारीः पशु निच्छन्नन्वन्दा भयमेव सम्राडिदि होवाच यत्ते कश्चिदब्रवीतच्छृणवामेत्यब्रवीन्मे जित्वा शैलिनिर्वाघ्वै ब्रह्मेदि यथा मातृमान्पितृमानाचार्यवान् ब्रूयात्तथा तच्छैली निरब्रवीद्वाग्वै ब्रह्मेत्यवदधो हि कुं स्यादित्यब्रवीत्तु देव तस्यायतनं प्रदिष्ठान्न मे ब्रवीदित्येगपद्वा ये दत्सम्राडिधि स वै नो याज्ञवल्क्य वागे वायतनमाकाशप्रदिष्टा प्रज्ञेत्येन दुपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिधि होवाच वाचा है सम्राट् बन्धुप्रज्ञा यद ऋग्वेदो सामवेदो धर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदश्लोकासूत्राण्यनुव्याख्यानानि व्याख्यानानिष्टगुंहुदमाश्रितं पायिदमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्दे वाग्वै सम्राट् परमं ब्रह्मनैनं वाग्जहादि सर्वाण्येनं भूधान्यभिक्षरन्ति देवो भूत्वा देवानप्येदिय एवं विद्वाने ददुपास्ते हस्त्यर्षभगं सहस्रं ददामीति ोवाच जनको वैदेहसहोवाच याज्ञवल्क्यपिता मेमन्यनुशिष्य हरेतेति यदेवदे कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म उदङ्कशौल्भायनः प्राणौ वै ब्रह्मेधि यथा मातृमान् पितृमानाचार्यवान् ब्रूया तथा तच्छौल्भायनो ब्रवीत्प्राणो वै ब्रह्मेत्यप्राणदो हि किग्घ्नादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठान्न मे ब्रवीदित्येकपाद्वा ये दत्सम्राडिधि स वै नो ब्रूहि याज्ञवल्क्यप्राण एवायतनमाकाशप्रदिष्टा प्रियमित्येन दुभासीद का प्रियदा याज्ञवल्क्यप्राण एव सम्राटिधि होवाच प्राणस्य वै सम्राट् का याजयस्य प्रदिगृह्यस्य प्रदिगृह्णात्यपि तत्र बाधा सङ्गं भवति यान् दिशमेधि प्राणस्यैव सम्राट् का मायप्राणो वै समाट् परमं ब्रह्मनैनं प्राणो जहादि सर्वाण्येनं गोदान्यभिक्षरन्धिदेवो भूत्वा देवानप्येधि य एवं विद्वानेदधुपास्ते हस्त्यरिषभगुं सहस्रं ददामिधि उवाच जनको वैदेहस उवाच याज्ञवल्क्य पिता मे मन्यतनाननुशिष्य हरेतेति यदेवदे कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे भर्कुर्वास्नश्चक्षुर्वै ब्रह्मेदि यथा माधृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णो ब्रवीच्चक्षुर्वै ब्रमेत्य पश्यतो हि किग् स्यादित्यब्रवीत्तु ते तस्यायतनं प्रदिष्टान्न मे ब्रवीदित्येकपाद्वा ये दत्सम्राडिदि स वैनो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशप्रदिष्टा सत्यमित्येन दुपासीदका सत्यदा याज्ञवल्क्य चक्षुरेव सम्राट् इति उवाच चक्षुषा वै सम्राट् पश्यन्द माहुरद्राक्षीरिति स आहा द्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहादिसर्वाण्येनं भूदान्यभिक्षरन्ति देवो भूत्वा देवानप्येधिय एवं विद्वाने ददुपास्ते हास्त्यर्षभगं सहस्रं ददामि दिहोवाच जनको वै देहः सहोवाच याज्ञवल्क्यः पिता मे मन्यद नाननुशिष्यहरेतेति यदेवदे कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे गर्दभीविपितो भारद्वाजश्रोत्रं वैब्रमेदि यथा मातृमान्पितृमानाचार्यवान् ब्रूयात् तथा तत् भारद्वाजो ब्रवीश्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किग्गु स्यादित्यब्रवीतुते तस्या यतनं प्रदिष्टान्न मे ब्रवीदित्येगवद्वा ये दत्सम्राडिदिश वैनो याज्ञवल्क्य श्रोत्रमेवायतनमाकाशप्रदिष्टानन्द इत्येन दुभासीदका नन्ददा याज्ञवल्क्यदिश एव सम्राट् दिहो वाच तस्माद् वै दिशं गच्छति नैवास्या अन्धं दिशो दिशो वै सम्राट् श्रोत्रगृश्रोत्रं वै सम्राट् परमम् ब्रह्म नैनघ्श्रोत्रं जहादिसर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येदिय देवानप्येधिय एवं विद्वानेदुपास्ते हस्त्यर्षभगुं सहस्रं ददामि दिहो वाच जनको वैदेहसहोवाच याज्ञवल्क्यः पिता मे मन्यद नाननुशिष्य हरेते यदेवदे कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो मनो वै ब्रह्मेदि यथा मातृमान् पितृमानाचार्यवान् ब्रूयात् तथा तज्जाबालोऽ ब्रवीन्मनो वै ब्रमेत्यमनसो हि किग्घृस्यादित्यब्रवीतु ते तस्यायतनं प्रदिष्ठान्न मे ब्रवीदित्येकपाद्वा ये दत्सम्राडिदिश वैनो ब्रूहि याज्ञवल्क्यमन एवायतनमाकाशप्रदिष्ठानन्द इत्येनुभासीदका नन्ददा याज्ञवल्क्यमन एव सम्राटिधि उवाच मनसा वै सम्राट् स्त्रियमभिहार्यदे तस्याम् प्रदिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट् परमं ब्रह्मनैनं मनो जहादिसर्वाण्येनं भूदान्यभिक्षरन्ति देवो भूत्वा देवा देवानप्येधिय एवं विद्वाने ददुपास्ते हस्त्यर्षभगुं सहस्रं ददामीति उवाच जनको वैदेहस उवाच याज्ञवल्क्यः यदेवदे मे मन्यदन्नाननुशिष्यहरेतेति यदे वदे कश्चिदब्रवीत्तच्छृणवामेऽत्यब्रवीन्मे विदग्धशाकल्यो हृदयं वै ब्रह्मेधि मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्चाकल्यो ब्रवीत् हृदयं वै ब्रमेत्य हृदयस्य हि किगुं स्यादित्यब्रवीतु दे तस्यायतनं प्रदिष्टान्नमे ब्रवीदित्येकपाद्वा ये दत्सम्राडिति स वैनो ब्रूहि याज्ञवल्क्य हृदयमेवायतनमाकाशप्रदिष्टास्तिरित्येनुपासीद कास्ति तदा याज्ञवल्क्यहृदयमेव सम्राट्दि होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनघं हृदयं वै सम्राट् सर्वेषां भूतानां प्रदिष्ठा हृदयेख्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैनगं हृदयं जहादिसर्वाण्येनं भूदान्यभिक्षरन्ति देवो भूत्वा देवानप्येदिय एवं विद्वानेतदुपास्ते हस्त्यर्षभगुं सहस्रं ददामीति उवाच जनको वैदेहस्य उवाच याज्ञवल्क्यः पिधा मे मन्यत नाननुशिष्य हरेतेति इति चादुर्धोध्याये प्रथमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं फोर् ब्राह्मणं टु ओन् जनकोह वै देह कूर्चादुपावसर्पन्नुवाच नमस्तेस्तु स्तु याज्ञवल्क्यानुमाशाधीधिसहोवाच यथा वै सम्राण् महान्तमध्वान मेष्यन्द्रथं वा नावं वा समादीतैव मे वै ताभिरुपनिषद्भिः समाहितात्मास्येवं वृन्तारक आढ्यसन्नधीत वेद उत्कोपनिषत्क इदो विमुच्य मानक्व गमिष्यसीति नाहन् वेद यत्र गमिष्यामित्यथ वै तेहन्स्तद्वक्ष्यामि यत्र गमिष्यसि दिब्रवीदु भगवानिधि इन्दो ह वै नामैषयोयन् वा येदमिन्द गुंसन्तमिन्द्र इत्याचक्षदे परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः अथै तद्वा मेक्षणिपुरुषरूपमेषास्य पत्नी विराट् तयोरेष सघ्स्तावोय एषोन्तर्हृदय आकाशो धैनयो रेद धन्नय्य एषोऽधृदये लोहितपिण्ढो धैनयो रेदप्रावरणै्यदेद नाड्युच्चरति यथा केश सहस्रधा भिन्न एवमस्यैता हिदा नाम नाड्योन्तर्हृदये प्रतिष्ठिता भवन्त्येदाभिर्वा ये ददास्रवदास्रवधि तस्मादेशप्रविक्ताहारतर इवैव शीरादात्मन तस्य प्राजी दिक्प्राञ्चः प्राणा दक्षिणा दिक्दक्षिणे प्राणाप्रतीजी दिक्प्रत्यञ्च प्राणा उदीजी दिगुतं च प्राणा ऊर्ध्वा दिगूर्ध्वा प्राणा अवाजी दिग्वाञ्च प्राणा सर्वा दिश सर्वे प्राणा एष नेदि नित्यात्मा गृह्यो न हि गृह्यते सिर्यो न हि सिर्यदे सङ्गो न हि नव्यधते नरिष्यत्यभयं वै जनकप्राप्तोऽसिद्धि उवाच याज्ञवल्क्यस्य स उवाच जनको वैदेहो भयं त्वा गच्छता याज्ञवल्क्ययो वेदयसे नमस्ते स्विमे विदेहा अयमहमस्मि युर्दोध्याण